रामस्य वचनम् श्रुत्वा हर्षपौरुषवर्धनम् सुग्रीवः पूजयाञ्चक्रे राघवम् प्रशशंस च असंशयम् प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः सन्दहे कुपितो लोकान् युगान्त इव भास्करः वालिनः पौरुषम् धृतिश्चया तन्नमैकमनाश्रुत्वा विधस्वयदनन्तरम् समुद्रात् पश्चिमात् पूर्वम् दक्षिणादपि चोत्तरम् क्रामत्यनुदिते सूर्ये वाली व्यपगतक्रमः अग्राण्यारुह्यशैलानाम् शिखराणि महान्त्यपि ऊर्ध्वमुत्पाद्य तरसा प्रतिगृह्णातिवीर्यवान् बहवः सारवन्तश्च वनेषु विविधा बालिनातरसा भग्ना बलम् प्रथयतात्मनः महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः बलम् नागसहस्रस्य धारयामा सवीर्यवान् सवीर्योत्सेकदुष्टात्मा वरदानेन मोहितः जगामसमहाकायः समुद्रम् सरिताम् पतिम् कूर्म्यमन्तमतिक्रम्य सागरम् रत्नसञ्चयम् मम युद्धम् प्रयच्छेति तमुवाच महार्णवम् ततः धर्मात्मा समुत्थाय महाबलः अब्रवीद्वचनम् राजन्नसुरम् कालचोदितम् समर्थो नास्मि युद्धं दातुम् युद्धम् युद्धविशारदा श्रूयताम् त्वभिधास्यामि यस्ते प्रदास्यति शैलराजो महारण्ये तपस्विशरणम् परम् शङ्करश्वशुरो नाम् न हिमवानिति विश्रुतः महाप्रस्रवणोपेतो बहु कन्दरनिर्झरः स समर्थस्तव विज्ञाय समुद्रमसुरोत्तमः हिमवद्वनमागम्य शरश्चापादिवच्युतः ततस्तस्य गिरेश्वेत चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः हिमवानब्रवीद्वाक्यम् स्व एव शिखरे स्थितः क्लेष्टुमर्हसि तस्य तद्वचनम् श्रुत्वा गिरिराजस्य धीमतः उवाचदुन्दुभिर्वाक्यम् क्रोधात् संरक्तलोचनः यदि युद्धेऽसमर्थस्त्वम् मद्भयाद्वाणिरुद्यमः तमाचक्ष्वप्रद्यान्मे यो हि युद्धम् युयुत्सतः हिमवानब्रवीद्वाक्यम् श्रुत्वा वाक्यविशारदः अनुक्तपूर्वम् धर्मात्मा क्रोधात्तमसुरोत्तमम् वाली नाम महाप्राज्ञशक्रपुत्रः प्रतापवान् अध्यास्ते वा नरः श्रीमान् किष्किन्धामतुलप्रभा स समर्थो महाप्राज्ञस्तव युद्धविशारदः द्वन्द्वयुद्धम् स दातुम् ते न भुचेरिव वासवः यदि युद्धमिहेच्छसि स हि दुर्मर्षणो श्रुत्वा हिमवतो वाक्यम् कोपाविष्टः स दुन्दुभिः जगावताम् तस्य किष्किन्धाम् वालिनस्तदा धारयन्माहिषम् रूपम् तीक्ष्ण शृङ्गो भयावहः प्रावृषीव महामेघस्तोयपूर्णो नभस्तले ततस्तु किष्किन्धाया महाबलः ननर्दकम्पयन् भूमिम् दुन्दुभिर्दुन्दुभिर्यथा समीपजान्द्रुमान् भञ्जन् वसुधाम् दारयम् खुरैः विषाणेनोल्लिखम् दर्प तद्वारम् विरदो यथा अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः निष्पपातसहस्रीभिस्ताराभिरिव चन्द्रमाः मितम् व्यक्ताक्षरपदम् तमुवाच सदुन्दुभिम् हरीणामीश्वरो वाली सर्वेषाम् वनचारिणाम् किमर्थम् नगरद्वारमिदम् रुद्ध्वा विनर्दसे दुन्दुभि विदितो मेऽसि रक्षप्राणान्महाबला तस्य तद्वचनम् श्रुत्वा वानरेन्द्रस्य धीमतः उवाच दुन्दुभिर्वाक्यम् क्रोधात् संरक्तलोचनः नर्तम् स्त्रीसन्निधौ वीरवचनम् वक्तुमर्हसि मम युद्धम् प्रयच्छाद्य अथवा धारयिष्यामि क्रोधमद्य निशामि माम् गृह्यतामुदयस्वैरम् कामभोगेषु वानरा दीयताम् सम्प्रदानम् च परिष्वज्य च वानरान् संसादय सुहृज्जनम् सुदृष्टाम् कुरु किष्किन्धाम् पुरे क्रीडस्व च समम् दर्पशासनः यो हि मत्तम् प्रमत्तम् वा भग्नम् वा रहितम् कृशम् हन्यात् सभ्रूणः लोके त्वद्विधम् मदमोहितम् सरप्रहस्याब्रवीन्मन्दम् क्रोधात्तमसुरेश्वरम् विसृज्यता स्त्रियः सर्वास्तारा प्रभृतिकास्तदा मत्तोऽयमिति मामम् स्था यद्यभीतोऽसि संयुगे मदोऽयम् सम्प्रहारेऽस्मिन्वीरपानम् समर्थ्यता तमेवमुक्त्वा सङ्क्रुद्धो मालामुत्क्षिप्य काञ्चलीम् पित्रा दत्ताम् महेन्द्रेण युद्धायव्यवतिष्ठता। व्यवतिष्ठता विषाणयोर्गृहीत्वा तम् दुन्दुभिम् गिरिसन्निभम् आविध्यत तथा श्रोत्राभ्यावधरक्तम् तु तस्य शुश्रावपात्यतः तयोस्तु युद्धं परस्पर जयैषिणोः युद्धम् समभवत् घोरम् शक्रतुल्यपराक्रमः मुष्टिभिर्जालभिः पद्भिः शिलाभिः आसीद्धीनोऽसुरो युद्धे शक्रसूनुर्व्यमर्धत तम् तु दुन्दुभिमुद्यम्य युद्धे प्राणहरे तस्मिन् निष्पिष्टो दुन्दुभिस्तदा स्रोतोऽभ्यो बहु रक्तम् तु तस्य शुश्रावपात् गतः पपात च महाबाहुः क्षितौ चक्षेपवेगवान्वाली वेगेनैकेन योजनम् तस्य वेगप्रविद्धस्य वक्त्रात्क्षतज बिन्दवः प्रपेतुर्मारुतोत्क्षिप्ता पतङ्गस्याश्रमम् प्रति ताम् दृष्ट्वा पतिताम्स्तत्र मुणिः क्रुद्धस्तस्य महाभागचिन्तयामासकोऽन्वयम् येनाहंसहसा स्पृष्टः शोणितेन दुरात्मना कोऽयम् दुरात्मा दुर्बुद्धिरकृतात्मा च बालिशः इत्युक्त्वा स विनिष्क्रम्य ददृशे मुनिसत्तमः महिषम् पर्वताकारम् गता सम्पतितम् भुवि स तु विज्ञाय तपसा वानरेण कृतम् हि तत् उत्ससर्जमः शापम् क्षेप्तारम् प्रति यः तेना प्रविष्टस्य वधो भवेत् वनम् मत्संश्रयम् येन दूषितम् रुधिरस्रवैः क्षिपतापादपाश्चेमे सम्भग्नाश्चासुरीम् तनूम् समन्तादाश्रमम् पूर्णं योजनं मामकम् यदि आगमिष्यति दुर्बुद्धिर्व्यक्तम् स न भविष्यति संश्रिता मामकम् वनम् न च तैरिह वस्तव्यम् यथा सुखम् तेऽपि वा यदि तिष्ठन्ति नित्यं पुत्रवत्परिरक्षिते, वनेऽस्मिन्मामके नित्यम् पुत्रवत् परिरक्षिते पतत्रा कुरविनाशाय फलमूलाभवाय च दिवसश्चाद्यमर्यादायम् द्रष्टाश्वोऽस्मि वानरम् बहुवर्षसहस्राणि सवै भविष्यति ततस्ते वानराः निश्चक्रवर्वनात् तस्मात् तान् दृष्ट्वा बालिरब्रवीत् किम् भवन्तः समस्ताश्च मतङ्गमनवासिनः मत्समीपमनुप्राप्ता अपिश्वस्ति स्वस्तिव नौकसा ततस्ते कारणम् सर्वम् तथा शापञ्च वालिनः शशम् सुर्वानराः सर्वे वालिने हेमपालिते एतच्छ्रुत्वा तदा वाली वचनम् वानरेरितम् समहर्षम् समासाद्य याचते स्मकृताञ्जलिः महर्षिस्तमनादृत्य प्रविवेशाश्रमम् प्रति शापधारणभीतस्तु वाली विह्वलताम् गतः ततः शापभयाद्भीतो ऋष्यमूकम् महागिरिम् प्रवेष्टुम् नेच्छति हरिर्द्रष्टुम् वापि नरेश्वर तस्या प्रवेशम् ज्ञात्वाहमिदम् राममहावनम् विचरामि सहामात्योर्विषादेन विवर्जितः एषोऽस्थिनि च यस्तस्य द्वन्द्वभे सम्प्रकाशते वीर्योत्सेकान्यरस्तस्य गिरिकूटनिभो महान् इमे च विपुलाः सालाः सप्त घटते वाली निष्पत्रयितुमोजसा एतदस्या समम् वीर्यम् मया राम कथम् तम् बालिनम् हन्तुम् समरे शक्ष्यसे नृपा तथा ब्रुवाणम् सुग्रीवम् प्रहसंलक्ष्मणोऽब्रवीत् कस्मिन्कर्मणि निर्वृत्ते श्रद्धया बालिनो वधम् तमुवाचाथ सुग्रीवः सप्त सालानि मान्पुरा एवमेकैकशो बाली विव्याथाथ स चा सकृत् रामोऽनिर्धारये देषाम् बाणेनैकेन च वालिनम् निहतम् मन्ये दृष्ट्वा विक्रमम् हतस्य महिषस्यास्थिपादेनैकेन लक्ष्मणा उद्यम्य प्रक्षिपे चापि तरसा द्वेधनुष्यते एवमुक्ता तु मुहूर्तम् काकुत्स्थम् बलवान् वानरोवाली संयुगेष्वपराजितः दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि यानि सञ्चिन्त्य भीतोऽहृष्यमोकमुपाश्रितः तमजय्यमधृश्यम् च वानरेन्द्रमर्षणम् विचिन्तयन्न मुम् चापि ऋष्यमोकममुन्त्वहम् उद्विग्नः विचरामि महावने अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः उपलब्धम् च मे श्लाघ्यम् सन्मित्रम् मित्रवत्सला त्वामहम् पुरुषव्याघ्रहिमवन्तमिवाश्रितः किन्तु तस्य बलज्ञोऽहम् दुर्बलशालिनः अप्रत्यक्षम् तु मे वीर्यम् समरे कर्मभिस्तस्य भीमैश्च कातर्यम् जनितम् मम कामम् राघवते वाणी प्रमाणम् धैर्यमाकृतिः सूचयन् त्रिपरम् तेजो भस्मच्छन्नमिवानलम् तस्य तद्वचनम् श्रुत्वा सुग्रीवस्य महात्मनः स्मितपूर्वमथो रामः प्रत्युवाच हरिम् प्रति यदि न प्रत्ययोऽस्मासु प्रत्ययम् समरे श्लाघ्यमहमुत्पादयामि ते एवमुक्त्वा तु सुग्रीवम् सान्त्वयल्लक्ष्मणाग्रजः राघवोदुन्दुभे कायम् पादाङ्गुष्ठेन लीलया तोलयित्वा महाबाहुश्चिक्षेपदशयोजनम् असुरस्य तनुम् शुष्काम् पादाङ्गुष्ठेन वीर्यवान् क्षिप्तम् दृष्ट्वा ततः कायम् लक्ष्मणस्याग्रतो रामम् तपन्तमिव भास्करम् हरीणामग्रतो वीरमिदम् वचनमर्थवत् आर्द्रः समाम्सः प्रत्यग्रः क्षिप्तः कायः पुरा सखे परिश्रान्तेन मत्तेन भ्रात्रा मे बालिना तदा लघुः सम्प्रति निर्माम् सस्तृणभूतश्च राघव क्षिप्त एवम् प्रहर्षेण भवता रघुनन्दना नात्र शक्यम् बलम् ज्ञातुम् तव वा तस्य वाधिकम् आर्द्रम् शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् स एव संशयस्तात तव तस्य च यद्बलम् सालमेकम् विनिर्भिद्य भवेद्व्यक्तिर्बलाबले कृत्वैतत्कार्मुकम् सज्जम् हस्ति हस्तमिवातम् आकर्णपूर्णवायम्य इमम् हि सालम् प्रहितस्त्वया शरो न संशयोऽत्रास्ति विदारयिष्यति अलम् विमर्शेन मम ध्रुवम् कुरुष्व राजन् प्रतिशापितो मया यथा हि तेजस्व वरः सदार विर्यथा हि शैलो हि मवान् महादृशु यथा चतुष्पात् सुकेसरी वरस्तथा नराणामसि विक्रमे वरः शे श्रीमद्राणे वाक आदि का्ये कांडे एकादश सर्ग